देवी लक्ष्मी मां पाहि दीनदया परिमा पहि देवी लक्ष्मी मां पाहि दीनदया परिमा पहि श्रीरादितनये मा ले मां पाहि क्षीरादि तनये माहि सर्वमङ्गले माम्पाहि देवी लक्ष्मी मां पाहि दीनदया परिमा पाहि विष्णुविलोले सि जनिलये मां पाहि विष्णु बिलोले मा पाहि सरसि जनलये मां पाहि देवी लक्ष्मी मां पाहि दीन दया परिमा पाहि देवी लक्ष्मी मां पाहि दीनदया परिमा पाहि दीनदया परिमा